अथ चतुस्त्रिंशः सर्गः तमप्रतिहतम् क्रुद्धम् प्रविष्टम् पुरुषर्षभम् सुग्रीवो लक्ष्मणम् दृष्ट्वा बभूवव्यथितेन्द्रियः क्रुद्धम् निःश्वसमानन्तम् प्रदीप्तमिव तेजसा भ्रातुर्व्यसनसन्तप्तम् दृष्ट्वा दशरथात्मजम् उत्पपातः हित्वा सौवर्णमासनम् महान् महेन्द्रस्य यथा स्वनङ्कृत इव ध्वजः उत्पतन्तमनोत्पेतोरुमा प्रभृतयः स्त्रियः सुग्रीवम् गगने पूर्णम् चन्द्रम् तारागणा इव संरक्तनयन श्रीमान् सञ्चचारकृताञ्जलिः बभूवावस्थितस्तत्र कल्पवृक्षो महानिव रुमाद्वितीयम् सुग्रीवम् नारीमध्यगतम् स्थितम् अब्रवी क्रुद्धः सतारं शशिवम् यथा सत्त्वाभिजनसम्पन्नः सानुक्रोशो जितेन्द्रियः कृतज्ञः सत्यवादी च राजा लोके महीयते यस्तु राजा धर्मे मित्राणामुपकारिणाम् मिथ्या प्रतिज्ञाम् कुरुते को नृशंसतरस्ततः शतमश्वानृते हन्ति सहस्रम् तु गवानृते आत्मानम् स्वजनम् हन्ति पुरुषः पुरुषानृते पूर्वम् कृतार्थो मित्राणाम् न तत्प्रतिकरोति यः कृतघ्नः सर्वभूतानाम् सवध्यः प्लवगेश्वर गीतोऽयम् ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः दृष्ट्वा कृतघ्नम् क्रुद्धेन तन्निबोध प्लवङ्गमा गोघ्ने चैव सुरापे च चौरे भग्नव्रते तथा निष्कृतिर्विहिता सद्भ्यः कृतघ्नेनास्ति निष्कृतिः अनार्यस्त्वम् कृतघ्नश्च मिथ्यावादी च वानरा पूर्वम् कृतार्थो रामस्य न तत्प्रतिकरोषि यत् ननु रामकृतार्थेन त्वया रामस्य वानरा सीतायामार्गणे यत्नः कर्तव्यः सत्त्वम् ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः न त्वाम् रामो विजानीते सर्पम् मण्डूकराविणम् महाभागेन रामेण पापः करुणवेदिना हरीणाम् प्रापितो राज्यम् त्वम् दुरात्मा महात्मना कृतम् चेन्नातिजानीषे राघवस्य महात्मनः सद्यम निशितैर्बाण द्रक्ष्यसी वालिनम न सकुज पंथी हतो गति सुसुग्रीविपथम नो न मिक्वाकुबर से काम काश्य वज्र सन्निभान तत सुखनासे सुखी नाम कार्य मन साप्यपेक्षसे शे श्रीमद्राणे वाक्यकंधे चतस्िंश